अस्तु नमस् सर्वेभ्यः अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम् एतावता अत्र दिवादिगणः इति विषयः अनुवर्तते तत्र वयं दृष्टवन्तः दिवारिगणे श्यन् इति विकरणप्रत्ययः विधीयते धातुतः यत्र कर्त्रार्थकसारधातकप्रत्ययः परः अस्ति श्यन् इति विकरणप्रत्ययः सूत्रं प्रबाद्य आगच्छति श्यन् इति विकर्णप्रत्यये तत्र शकारः लषक्वदिते इति नेन इति संज्ञा भूत्वा गच्छति तत्र अनन्तरं नकारः अपि हलन्त्यम् इति नेन गच्छति तत्र य इति अन्ते तिष्ठति तर्हि यत्र विकर्णप्रत्ययः धातु द्वयोः मेलनेन तत्र अदन्ताङ्गम् अदन्तमङ्गं प्राप्नुमः तत्र अदन्ताङ्गानां सिद्धतिङ्प्रत्ययाः आनीयन्ते तदनन्तरं तत्र शेन् इति प्रत्ययः अपित् अस्ति सारधातुकम् अपित् इत्यनेन निद्वत, तर्हि तत्र त्रीणि प्रमुखकार्याणि भवन्ति वयं तु जानीमः एव यत्र प्रत्ययः कित् तत् अन्यत् एकम अस्ति एकमस्ति गुणनिषेधः द्वितीयम् अनिदितां हल उपदायाक्मिति इत्यनेन यत्र धातुः हलन्तधातुः अपि च तत्र उपदायां नकारस्य लोपः भवति अनन्तरं धातुः सम्प्रसारिणी अस्ति चेत् तत्र सम्प्रसारणकार्यमपि भवति तत्र अस्माकं सूत्रमस्ति ग्रहीज्या वै व्यधि वष्टि विच्छति वृष्यति पृच्छति वृज्यतीनां निती च सूत्रमासीत् तत्र वयं सामान्यधातूनां विषये एतावता किञ्चित् अधीतवन्तः आकारान्तधातूनाम् इकारान्तधातूनाम् अपि च उकारान्तधातूनां तावत्पर्यन्तं वयं गते सप्ताहे दृष्टवन्तः इदानीं ततः अग्रे अधुपदधातवः इति हेमभगिनी ततः आरभ्य पठति आं महोदय पठामि अदुपददातवः एकोनविंशतिदातवः सन् सं, सन्ति नश् अदर्शने ष्यन् योजनेन नश् योगः श्यन् यकारः अवशिष्यते नश्योगः य नश्य इति अङ्गं तदनन्तरं तियो तिपादयः योजनेन नश्य योगः ति नश्यति इति रूपं प्राप्नुमः तथैव शक विभाषितो शक्त्योगः ह्यन् शक्य इति अङ्गम् तत् अत्र उभयपदी अस्ति अतः शक्यति शक्यते इति रूपद्वयं दिवादिगणे परन्तु अत्र स्वादिगणे तु शक्नोति इति रूपम् आगच्छति mm. अपि च अत्र अर्थः न जानामि इति इत्युक्ते किञ्चित् परन्तु एवमेव पठामि mm. अणप्राणने अण्योगः अत्र आत्मने कृत्वा अन्यते तरी अत्मेपदी अस्ती अण्यते आगछति युक्त जीवित अर्थः तदनंतर पद गौ अर्थ पद्योग ह्य अ पद्यतेम ग्छति तबदेव नर्थिवती अर्थ इध रन आत्मनेपदी मन्यते तप् तप्यति शप शप् शप्यति णब् आदौ नकारः अस्ति इति कृत्वा नह नः कारणेन नकारः आगत्य नब् इति भवति तर्हि नभ्यति इति रूपम् अस् अस्यति जस् जस्यति जस स्तस्तस्यति दस दस दस् दस्यति वस् वस्यति मस्मस्यति स्नस् स्नस्यति स्नह्यति इति रूपा श्रूयते भगिनि हिमाभगिनी न श्रूयते श्रूयते वा न न श्रूयते न श्रूयते खलु हिमाभगिनी न श्रूयते अन्य कोऽपि अस्ति वा अत्र प्रायः अनन्तकृष्णमहोदय वा नमस्कारः लक्ष्मी अस्ति नमस्कारः भगिनि अनन्तरं नमस्ते हा नमस्ते भगिनि अस्तु पुष्प शुको न महोदय पुष्पः अस्ति हा शुको न महोदय तत्र मन् इति दातुः अस्ति किल तत्र मन्यते इति रूपं प्रसिद्धरूपम् अस्ति अतः अत्र एकवारं लट् लोट् रूपाणि वदति वा भगिनि मम भग्नः भवतां न श्रुतवती भवती करोति क्षम्यता ओ अस्तु अस्तु ओ क्षम्यता महोदय इदानीं हेम भगिनी आगतवती अत्र अत्र मन् दातुः अस्ति किल भगिनि तत्र मन्यते इति मन्यते इत्यस्य मन् इति कृते लट् रूपाणि वदति अस्तु मन्यसे मन्यतां मन्यन्ते मन्यसे नगिनि द्विवचने रूपं पुनः वदतु मन्यतां नास्ति भगिनिं वा मन्दते मन्येते क्षम्यताम् मन्यसे मन्येते मन्यन्ते मन्यसे मन्येथे मन्यद्वे मन्ये मन्यावहे मन्यामहे अपि च लोट्लकारे मन्यतां मन्येतां मन्यन्तां मन्यस्व मन्येतां मन्येतां मन्यद्वं मन्यै मन्यावहै मन्यामहे हा समीचीनम् अस्तु धन्यवादः भगिनि इदानीं शुकवन महोदय अग्रे लङ्लकारे विदिर्लिङ्ग् लकारे विदिर्लिङ्ग् लकारम् अमन्यत अमन्येताम् अमन्यन्त अमन्यथाः अमन्येताम् अमन्यध्वम् अमन्ये अमन्यावहि अमन्यामहि इति लङि विधिलिङि <laughs> मन्येत् मन्येत मन्येयाताम् मन्ये रन् मन्ये ताः मन्ये याथां मन्ये ध्वं मन्येय मन्ये वहि मन्ये महि हा समीचीनमस्ति अग्रे अत्र इदुपदधातवः इति पठति वा हा इदुपदधातवः सप्तदश धातवः स्विदा गात्रप्रक्षरणे स्वेदस्य आगमनं स्विद् योगः श्यन् स्विद्य इति अङ्गं स्विद्ययोगः ति स्विद्यति क्लिद् क्लिद्यति इति भवति क्ष्विद् क्ष्विद्यति खिद् खिद् दैन् दैन्ये इति अर्थः खिद्यते इति आत्मनेपदीरूपं विदसत्तायां विद्यते शिधु संसा संराधौ सिद्योगः श्यन् सिध्य इति अङ्गं सिद्ध्ययोगः ति सिध्यति डिप् डिप्यति क्षिप् प्रेरणे तुदादौ क्षिपति चुरादौ क्षेपयति तत्र प्रायः <laughs> गणद्वये अपि अस्ति क्षिप् इति धातुः द्वयमपि प्रेरणार्थे एकं तुदादो तु क्षिपति इति रूपं भवति चुरादौ क्षेपयति इदानीं दिवादिगणे क्षिप् योगः श्यन् क्षिप्यति इति रूपं तिं स्तिम्यति स्तिं स्तिम्यति क्लिश ति ति उपतापे क्लेशप्राप्तिः इत्यर्थः क्लिश्यते इति रूपं भवति क्लिश् लिश लिष्यते क्लिश क्लिश्यति इति इष इष्यति रिष हिंसायां रिष्यति बिस बिस्यति स्निह प्रीतौ तत्र धात्वादे शः सः इत्यनेन सकारादेशः भवति स्निह्गः श्यन् स्निह्यति इति अन्तिमरूपं भवति अस्तु महोदय धन्यवादः इदानीमग्रे सरला भगिनी अत्र विद् इति धातुः अस्ति तदपि प्रसिद्धदातुः अस्ति समी अत्र यत्र अकारान्तधातवः सन्ति यथाक्षिप अत्र लिश इति सन्ति तत्र अकारस्य लोपः केन सूत्रेण अपगच्छति उपदेशे अज्नुनासिक इत्यनेन अत्र अत्र किमर्थं तादृशप्रश्नः अस्ति इति चेत् तत्र क्षिपा इति धातुः चिरादिगणे अपि अस्ति तत्र तु अकारः अनुनासिकः नास्ति अत्र तु अनुनासिकः अस्ति तथैव अन्यत्र अपि वा क्षिप इति तथा अस्ति अन्यत् दा, अन्यः दातुः कः अन्यत् अस्ति तदनन्तरं सर्वत्र अत्र अनुनासिकवर्णः अस्तु अन्य कोऽपि अस्ति वा नमस्कारः भगिनि अस्तु सरला भगिनी अत्र विद् इति धातोः लट् लोट् रूपाणि वदतु भगिनि अस्तु विद् आत्मनि पदे अस्ति धातु विद् विद्यते विद्येते विद्यन्ते विद्यते विद्येते विद्यध्वे विद्ये विद्यावहे विद्यामहे लोट् भवति विद्यतां विद्येतां विद्यन्तां विद्यस्व विद्येतां विद्यध्वं विद्यै विद्यावहे विद्यामहे लङ् अपि वदतु भगिनि अस्तु अल्लङ् भवति अल् अविद्यत अविद्येताम् अविद्यन्त अविद्यथा अविद्येताम् अविद्यध्वम् अविद्ये अविद्यावहि अविद्यामहि विधि विधिलिङ्गि अपि वदतु विद्येत विधेयातां विजेरन् विद्येताः हि विद्ये इदानीं भगिनि अत्र अधुपदधातव इति भगिनि अधुपदधातव उदुपदधातवः उ उदपदधातव अष्ट अष्टत्रिंशत् धातवः बुद्ध अवगमने बुद्ध योगस्यन् बुद्ध्य बुद्ध्यते युद्ध सम्प्रहारणे युद्धोगस्यन् क्रुध्यते क्रुद् क्रोधे क्रुद् योगश्यन् क्रुध्यति शुद शुद शुद शुद्ध बुभुक्षायां शुद्ध्यन् शुध्यति शुद्ध शौचै शुद्ध योगश्यन् शुद्ध अङ्गं शुध्यति कुप् क्रोधे कुप् इति अङ्गम् कुप्यति पुष् पुष्टौ पुष्यन् पुष्यति शुश् शोषणे शुष्क भवति शुच् योगश्यन् शुष्यति तुष् प्रीतौ सन्तुष्ट भवति तुष तुष तुष्योगश्यन् तुष् तुष्य इति अङ्गं तुष्यति समीचीनमस्ति अत्र एकः विषयः अस्ति यत्र बहुत्र यत्र अङ्गमस्ति यकारः अस्ति खलु यकारः तर्हि अत्र कर्मणि प्रयोगे अपि समानरूपं बहुत्र समानरूपमेव भवति अत्र मन् इति दातुः अस्ति चेत् मन्यते इति एव रूपं तुश् इति अस्ति चेत् तुष्यते अत्र तुष्यति इति अस्ति तुष्यते इति तादृशरूपम् अतः सावधानतया तत्र द्रष्टव्यं कर् कर्तृप्रयोगः अस्ति वा अथवा कर्मणि प्रयोगः अस्ति वा इति बहुतरूपाणि समानानि अस्तु धन्यवादः भगिनि इदानीम् अत्र एक प्रश्न ना अस्ति चेत् दिव्योगः अत्र युद्ध सर्वत्र किमर्थम् उपदायः न भवति इति सूत्रं तत्र रेपांत अथवा वकारान्त धातुः अस्ति चेत् अस्तु इदानीम् अत्र रामप्रिया भगिनी अग्रे पठति वा अस्ति किल तस्य कर्मणिरूपं बुध्यते एव भवति वा हा बुध्यते एव कर्तरी कर्मणि द्वयमपि बुध्यते बहुत्र रूपाणि समानानि अतः भ्रमः भवितुम् अर्हति कर्मणि अपि कित् अस्ति इति कृत्वा तत्रापि गुणः निषेधः बोध्यते अस्तु धातु सः लकार भगिनी सम्यक् तेन श्रूयते भगिनि सरला भगिनी अहं साधु अहं हेमा भगिनी अहम् अशुद्धं उक्तवती भोजते कर्मणि परे आ, आ, धातु योगयकार योग आत्मनि पदति भवति समीचीनप्रियभगिनी आं ऋतुपददातवः त्रयोदशदातवः फ्रिज् विसर्गे त्यजति सृज्योगः ष्यण् सृज्य इति अङ्गं सृज्यते इति आत्मनेपदी रूपं नृति गात्रविक्षेपे नृत्योगः श्यन् नृत्य इति अङ्गं नृत्यति इति रूपं तृप् प्री प्रीणे तृप्तः भवति प्रसन्नः भवति तृप्योगः ह्यन् तृप्यति इति रूपं हृष् तृष्टौ क्षम्यतां तुष्टौ आयाति हृष्योगः ह्यन् हृष्य इत्यं ऋधौ वृ ऋधौ वृधौ वर्धने हृद्योगः श्यन् ऋध्य इति अङ्गं ऋध्यति इति रूपं कृष् तनुकरणे कृशः भवति कृष्योगः ह्यन् कृष्य इति अङ्गं कृष्यति इति रूपं त्रिष्योगः त्रिष् दृश्यति भवति घृद् गृध्यति भवति दृप् दृप्यति दृष् दृश्यति मृश् दृश्यति मृश् मृष्यति मृश्यते हा समीचीनत वयं दृष्टवन्तः किल भुवादिगणे अपि पुनः भगिनि कृष् दातु हा कृष् तत्र गुणः भवति कृष्दातु तत्र कृष् इति दातु तत्र शकार मूर्धन्य शकारः वयं दृष्टवन्तः अस्तु द्रष्टव्यं इदानीं न स्मरामि परन्तु अत्र कृष् इति मूर्धन्यशकारान्तदातुः तत्र कर्षति इति रूपं भवति तद् अस्तु भगिनि अत्र नृत्यति धातोः कृते एकवारं रूपाणि वदतु नृत्यति इति आत्मनेपदी नृत्यते इति आत्मनेपदीरूपं वा नृ न न नृत्यति इति परस्मैपदी क्षम्यतां परस्मैपदी एव नृत्यती नृत्यतः नृत्यन्ती नृत्यसी नृत्यतः नृत्यत् नृत्यामी नृत्यावः नृत्यामः इति लटी अनन्तरं लोट् च किल शमीरं हा लोट् लोट् इत्युक्ते नृत्यतु नृत्यतात् इति रूपद्वयं भवति नृत्यतां नृत्यन्तु नृत्य नृत्ये नृत्यतं नृत्यत नृत्यानि नृत्य नृत्यानि नृत्या वा नृत्याम अनन्तरं लङ् अनृत्यत् नृत्यताम् अनृत्यन् अनृत्यः अनृत्यतम् अनृत्यत नृत्यम् अनृत्या वा नृत्याम विधिलिङ् इत्युक्ते नृत्ये नृत्येतां नृत्येयुः नृत्येः नृत्येतं हां हा समीचीनमस्ति धन्यवादः भगिनि अत्र कृष् इति धातुः दिवादिगणे एव अस्ति भगिनि भोवादिगणे नास्ति वा तनुकरणे तक्षः इति तत्र सूत्रमासीत् तत्र तनु इति धातुः आसीत् तत्र तत्तु भिन्न दातुः भिन्न दातु धन्यवादः इदानीम् अत्र अनन्तकृष्णमहोदय अग्रे पठति वा ऋदुपतदातवः त्रयोदश त्रयोदशदातवः ऋदु ऋरुपता क्षम्यतां शेषदातवः पञ्चदशदातवः पुष्पविकसने पुष्पशन् क्षम्यता पुष्पविकसने पुष्प शन् पुष्प्य इति अङ्गं पुष्प्यति पुष्प्यति इति रूपं दीपि दीप्तौ प्रकाशते दीप्यति इति तत्र दी, सत्यं पूरि आप्यायने पूरणे इत्यर्थे पूर्यति इति व्रीङ् व्रीड् क्षम्यताम् व्रीड्यति राद् राध्यति स्ं स्तीम, स्थीयति इति शेषधातुवः विशेषदातवः पञ्चविंशतिदातवः अनिदिदातूनाम् उपदायाम् नकारलोपः धातुद्वयम् यस्य धातोः ह्रस्वैकारस्य इत् सञ्ज्ञः भवति सः धातुः इदित् इति उच्यते यः धातुः इदित् नास्ति सः अनिदित् इत्युच्यते अनिदिदाम् दातूनाम् उपदायाः नकारस्य लोपः भवति कितिङीति परे दिवादिगणे तादृशौ द्वौ धातु स्तः महोदय अस्ति वा वदन्नस्मि किञ्चित् न श्रुतम् ओ एवं शन् ङित्व शनि परे अनयोः धात्वोः न लोपः भवति धातुपाठे uh, अनुस्वारः वर्गीयव्यञ्जनानां पञ्चमसद सदस्याः च इमे सर्वे मूले दन्त्यनकारः एव इति बोध्यम् तदा सन्धिकार्येण नकारस्य स्थाने ततः अग्रे च यथासङ्गम् अनुस्वारस्य स्थाने अन्यानि वर्गीयव्यञ्जनानि आयान्ति अतः द्विवादिगणे रञ्जातोः मूलरूपमस्ति वस्तुतः रनुज् ब्रंश् धातोः मूलरूपम् अस्ति ब्रनुष् यथा रञ्ज् नश्चपदान्तश्च झलि इत्यनेन सूत्रेण झलि परे अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः भवति रञ्ज् इति अनुस्वारस्य ययि परसवर्णः इत्यनेन ययि पर परे अनुस्वारस्य परसवर्णादेशः भवति रञ्ज् अतः धातुः अस्ति रञ्ज् परन्तु उपदायां नकारः अस्ति इति बोध्यम् रञ्ज् दिवादिभ्यः षन् इत्यनेन द्विवादौ शन् भवति कर्त्र अर्थे सार्वदात्मकप्रत्यये परे रञ्ज् शन् अनुदितां हल उपदायाः किङ् इति इत्यनेन सूत्रेण हल उपादाय किङ् इति इत्यनेन सूत्रेण ङीतिप्रत्यये परे उपादायां स्थितस्य नकारस्य लोपः भवति तत्र नकारस्य लोपः भवति रज् रज्ज इति अङ्गं रज्जति इति धातुः रूपं भवति एवमेव अयं रज् अयं रञ्ज् धातुः भवादोऽपि अस्ति तत्र षप् इति विकरणं विकरणप्रत्ययः षप् च न कित् न वा ङित् अतः अनुदिता इति इत्यस्य सूत्रस्य प्रसक्तिः नास्ति परन्तु तत्रापि नलोपः एकः अतः पाणिन्या तदर्थं विशेषसूत्रम् विशिष्टसूत्रम् विरचितम् रञ्जेश्च रञ्ज्दातोः अपि नकारस्य लोपः भवति शपि परे रञ्जेः षष्ट इति रञ्जेः च अङ्गस्य नलोपः शपि इति तत्र रञ्ज्दातुः भुवादिगणे अपि अस्ति परन्तु विष्णुरूपम् अस्ति तत्र नकारस्य लोपः भवति ततः पाणिना सूत्रं विशिष्टतया सूत्रं दत्तमस्ति रञ्जेः रञ्जेः च इति सूत्रेण नकारलोपः भवति इति पृथक्तया सूचितम् अतः तत्रापि रूपं भवति क्षम्यतां रजति इति भवति नकारस्य लोपः भवति अस्तु समीचीनं महोदय धन्यवादः अत्र पूर्वस्मिन् वर्गे शुकवनमहोदय भवान् पृष्टवान् खलु अत्र रदीजबो रचि इत्यस्मिन् सूत्रे किमर्थम् धातोः इति अनुवृत्तिः अस्ति इति तत्र र रदी जबी तत्र धातुद्वयम् एव तत्र ग्रहणम् अत्र रदी अपि जबि इदि धातुः अपि अस्ति अतः अत्र इदि धातोः दा, ग्रहणं न भवतु इति कृत्वा द्वयोः धातोः एव ग्रहणं तत्र रदीजबो सूत्रे ओ अस्तु धन्यवादः अपि च अत्र रञ्जस्य इति सूत्रे रञ्जेः च अङ्गस्य न लोपः शपि इति किन्तु नकारः तु उप इति कृत्वा केन सूत्रेण परिभाषासूत्रेण वयम् अवगन्तुं शक्यते उपदायां स्थितस्य नकारस्य एव लोपः इति अत्र अन्यकोपि नकारः एव नास्ति खलु रञ्जियोगः शपि इति अस्ति शप् इति विक्रणप्रत्ययः रञ्ज् इति धातुः धातोः रञ्ज् इति धातुः अपि अस्ति अङ्गमपि अस्ति अत्र विधीयते तत्र अङ्गमपि अस्ति तत्र अङ्गे तत्र नकारः अस्ति इति कृत्वा नकारस्य एव लोपः अतः उपधा इति वदनस्य आवश्यकता एव नास्ति अन्यत्र कुत्रापि लोपः न भवितुमर्हति तदेव प्रश्नः महोदय शुको न महोदय अस्तु अन्य कोऽपि अस्ति वा <laughs> अस्तु अत्र लक्ष्मीभगिनी अग्रे पठति वा <laughs> श्चापदान्तस्य जलि इत्यनेन जले तये पदान्तस्य नकारस्य स्थाने अनुस्वारादेशः ब्रंश् षकारः यैवर्ण आदेशः न भवति तर्हि धातुः ब्रांश् परन्तु उपदायां षकारः अस्ति इति बोध्यम् आम् द्रंश् दिवाले दिवादौ शन् भवति कर्तृ अर्त्रे सार्वधातुकप्रत्यये परे द्रंश्योगः श्यन् अन्वितां हल् उपदाया ङिति इत्यनेन ङिति प्रत्यये परे उपदायां स्थितस्य नकारस्य लोपः द्रश्योगः श द्रश्य इति अङ्गम् द्रश्ययोगः अस्ति द्रश्यति अयं द्रश् धातुः तत्र न लोपः न भवति द्रंशते इति रूपम् आम् um, uh, अग्रे पठामि वा भगिनि अग्रे पठतु भगिनि अस्तु अनिलतां हल् उपदायामिति येषां हलन्तधातूनां तस्य इकारस्य संज्ञा नास्ति तेषाम् अस्ति चेत् तस्य नकारस्य लोपः भवति कितिङिति प्रत्यये परे अनुभूतिसहितसूत्रम् अनिलतां हलः अङ्गस्य उपदायाः नः लोपः इति Uh, uh, नशापदान्तस्य झलि एकवारं पठतु अस्तु नशापदान्तस्य झलि अपरान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे अनुवृत्तिसहितसूत्रम् अपरान्तस्य महनः च अनुस्वारः झलिसंहितायां परसवर्णादेशः अनुस्वारस्य अनुस्वारस्य स्थाने परसवर्ण आयुषो भवति ययि परे अनुवृत्तिसहितसूत्रम् अनुस्वारस्य ययि परसवर्णः संहितायाम् परसवर्णः इत्युक्ते अनुस्वारात् परः यः वर्णः तस्य सवर्णः सवर्णः नाम अनुस्वारात् परः यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः स्थाने अन्तरतमः सूचयति यत् यस्य स्थाने आदेशो भवति तस्य अन्तरतमो नाम सदृश आदिष्ठो भवति भवतु वर्गीयञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदस्यः एव अतः स्थाने अन्तरतमः इत्यस्य साहाय्येन अनुस्वारस्यीपरसवर्णः इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्ण अग्रिमवर्णस्य वर्गीयपञ्चम आदेशो भवति अंग, अङ् अङ् तत्र अनुस्वरस्य स्थाने नकार आदेशः भवति अङ्ग इति रूपं मञ्च अत्र अनुस्वारस्य स्थाने नकारः आदेशः भवति मन्ता अत्र Uh, अनुस्वस्य स्थाने अपारः आदेशः भवति मन्ता इति रूपम् अस्तु इति वर्णः यत् यै प्रत्याहारे न सन्ति इति कारणेन एषु परेषु अनुस्वारस्य परथवर्ण आदेशो नैव भवति यथा रांस्यते रांस्यते नन्स्यति तत्र अनुस्वरद्वयमस्ति परन्तु तत्र सम् उपसर्गः अस्ति खलु तर्हि तत्र सम् उपसर्गः अस्ति तत्र वैकल्पिकम् अस्ति अत्र अनुस्वारस्य परसवर्णः एकवारं भवितुमर्हति अथवा तत्र अनुस्वारः यथावत् तिष्ठति तत्र वा पदान्तस्य इति सूत्रेण नुस्वारः अपि तत्र स्थातुं शक्नोति अथवा अनुस्वारस्य स्थाने परसवरणादेशः अपि भवितुमर्हति अत्र अनुस्वारेण सह रूपं प्रदर्शितमस्ति अस्तु स्थाने तत्र अनुस्वारस्य स्थाने किमपि आदेशः न भवति यतोहि सकारः ययि नास्ति तत् समीपं महोदय किं प्रश्नः किं उपसर्ग उपसर्गाणां पदसंज्ञा अपि भवति इति द्वयोः अपि तत्र संहितायां तत्र अपदान्तस्य एव संहिता नित्यं सन्धिः नित्य नित्यं करणीयः इति नियमः अस्ति खलु सो ततः उपसर् उपसर्गपूर्वः अस्ति चेत् तत्र करणीयमिति आवश्यकता नास्ति विपक् विकल्पेन ना, करणीयं कर्तुं शक्यते इति तस्मात् कारणात् रूपद्वयमपि भवितुम् अर्हति इति सङ्गच्छति सः स उपसर्ग गच्छति इति गच्छति इति द्वयोः अपि अनुमतिः अस्ति ओ अस्तु एवं वा अहं तद् न जा न ज्ञातवती अत्र अत्र अहं किञ्चित् लिखितमस्ति अत्र तु सूत्रमपि अस्ति वा पदान्तस्य इत्यनेन तत्र वैकल्पिकरूपम् अस्तु अस्तु धन्यवादः महोदय क्षम्यतां भगिनी तत्र रञ्जेश्च इत्यत्र यत् भवता भवत्या उक्तं तत्र मम लैन् खण्डितः अभवत् मम प्रश्नः तु रञ्जेश्च इति सूत्रे तत्र येन तदन्तस्य इत्यनेन अन्तर्ग्रहणमेव भवति किल स्वम् अपि च भवति किन्तु अत्र नकारः अन्ते नास्ति इति कृत्वा केन सूत्रेण तस्य ग्रहणं भवति प्रश्नः आसीत् अलोन्त्यस्य इत्यस्य प्रसक्तिः अत्र नास्ति अन्तग्रहणम् इत्यस्य प्रसक्तिः नास्ति यतोहि अत्र नकारस्य लोपः इति एव दत्तं खलु नः लोप इति एव कार्यं तत्र नः कुत्र अस्ति तत्र उपादायमेव अस्ति अतः अत्र परिभाषासूत्रसूत्रस्य आवश्यकता एव नास्ति अत्र नकारः कुत्र अस्ति तत्र सूत्रे एव इति अस्ति अनुवृत्तिः तत्र नः नकारः तु उपदायामेव साक्षात् दत्तमस्ति इति कृत्वा इति कृत्वा तत्र एनपि स्थन्तस्य इति परिभाषायाः आवश्यकता नास्ति इति अस्तु अलो अलोन्तस्य अपि च अलोन्त्यस्य इति सूत्रं तत्र एकाल् अस्ति चेत् लोपः भवति इति वदति एकाल् इति नास्ति अन्तिवर्ण अन्तिवर्णस्य एव लोपः इति यत्र षष्ठीविभक्तिद्वारा अस्तु अस्तु आम् अस्तु अग्रे अत्र पुष्पा भगिनी अग्रे पठति वा अत्र स्थानेन्तरतमः इति त्यजामः वा गृहपाठरूपेण पठन्तु इति चिन्तयामि समीचीनं वा अत्र अग्रे, अग्रे।, अग्रे इदि दातूनां न लोपः इति पुष्पा भगिनी पठतु अस्तु भगिनि ततः ततः अग्रे इदितां दातूनां न लोपो न भवति इति अग्रे स्थानेन्द्रतमः सर्वं त्यक्त्वा अग्रे इदितां दातूनां न लोपो न भवति तत्र वदी इति धातुः अस्ति किल भगिनी अत्र एक छार्ट् अस्ति तद् अग्रे गच्छतु अग्रे गच्छतु अग्रे अग्रे गत्वा गत्वा तत् अग्रे तदनन्तरं सारांशः इति अस्ति तदनन्तरं इदितां दातुं दातु यथा वदि इति दातुः इदितो नुं दात् धातोः इत्यनेन नुमागमः वन्द् इति धातुः अस्य न लोपः भवति नस्य अस्य न लोपः न भवति अत्र वन्द् अनुस्वारः अस्ति तत्तु नष्टपदान्तश्च जले तत्तु वन्द् इति आयाति नकार यत् वद्वी वद् तु इति तोनं दातु वन्द नष्टपदान्तश्च जले अनुस्वरः आयाति अनुस्वरस्य यै परिसवर्णः तत्तु वन्द इति न वन्दः नकारः आयाति मम एकः प्रश्नः अस्ति वन्दी भवति उपदे उपदेशक उपदेशकधातु वद् कीदृशधातुः अस्ति वदतु मूले तुपानन्तरम् इदा इदानीं हलन्तधातुः अस्ति हलन्तधातुः भवति आतिदेशिकधातुः mm. नास्ति भगिनि उपदेश औपदेशिकधातुः एव तत्र नुमागमः भवति इदानीमपि दा, तत्र दा धातु संज्ञा अस्ति औपदेशिकदातु आतिदेशिकधातुः इति नास्ति अत्र औपदेशिकधातुः एव तत्र नुमागमः भूत्वा तत्र वन्द इति अस्ति अस्तु इदानीमपि औपदेशिकधातुः भवति वन्द् औपदेशिकधातुः एव तत्रवः इति तत्र इदानीमपि अस्ति लाच् तत् तत् तथैव लाच् इति आयाति तत् लाञ्च् लाञ्च् तत् अनुस्वारस्य ये परसवर्णः आयाति लाञ्च् इति आयाति uh, कपि इति uh, कम्प् इति आयाति uh, uh, लबि इत, uh, तु लम्ब् इति आयाति सूत्रं पठातु भगिनि हा इदितो नुम् धातो धातोः इदितः धातोः नुम् आगमः भवति पूर्णा पठामि भगिनि अनुवृत्तिसहितसूत्रं सूत्रं स्वयं सम्पूर्णम् इदितो नु अग्रे पठतु प्रश्नः उदेति यदि धातु नकारादेशः भवति एव तर्हि किमर्थं बन्द् मूलधातुः न स्यात् तथैव यदि लबि मकारः आयाति एव तर्हि किमर्थम् लम्ब् इत्येव मूलधातुः न स्यात् हा अस्ति उत्तरम् अस्ति यत् तत् तत्र कतिचन कार्याणि सन्ति यथा अनिदितां हल् उपधाया इति इत्यनेन यः धातुः इदि नास्ति तस्य धातोः उपायां स्थितस्य नकारस्य लोपः स्यात् कितिनीति परे परन्तु इदिच्छेत् अस्माभिः यः नकारः आनीतः तस्य नकारस्य लोपः कस्याम् अपि दशा दशायां न भवति साक्षात् आरम्भः आरम्भतः नकारः अस्ति चेत् तस्य लोपः कितिनीति च भवति यथा बन्धौ नकारः उपस्थितः मूलधातौ अतः किति परे नकारलोपः ल्युटि बन्धन् बन्धनं बन्धनं नकारः उपस्थितः यतो यतो हि ल्युट् प्रत्ययः कित् अपि नास्ति नित् अपि नास्ति परन्तु क्तान्तरूपं बुद्ध नकारादेशोपः नकारा बद्ध बद्ध नकारलोपः यतोहि क्त प्रत्ययः कित् अस्ति लभि धातो धातोः इति तु नुम् धातोः इत्यनेन नुम् आगमः लम् अस्य नकारस्यलोपः, भवति यथा लम्बितः अस्तु भगिनि समीचीनम् अत्र कोऽपि प्रश्नः वा स्पष्टमस्ति इति मन्ये अस्तु धन्यवादः भगिनि इदानीम् अत्र रश्मीभगिनी अग्रे पठति वा भगिनि सम्प्रसारणिनः धातवः एकः एव धातुः सम्प्रसारणसंज्ञा भवति यत्र यणः स्थाने इक्कादेशः भवति धातु एतादृशं कार्यं भवति चेत् सः धातुः सम्प्रसारणी दिवादिगणे एकः सम्प्रसारणी धातुः अस्ति व्यथ् ताडने अधस्तनेन सूत्रेण गृहीज्य इति इत्यनेन सूत्रेण कितिङ् इति प्रत्ये परे भवति नाम यणः स्थाने इक्कादेशः भवति सम्प्रसारणम् अत्र य स्थाने इ आगच्छति व उ आगच्छति ऋ स्थाने ऋ लृ इति आगच्छति व्य धातौ द्वौ वर्णः द्वौ वर्णौ वकारः यकारश्च अत्र न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण परस्य एव सम्प्रसारणं भवति न पूर्वस्य अतः व्यत् तातौ यकारस्य सम्प्रसारणं यथा व्यथ् ताडने तत्र व्यथ योगः स्यन् न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण सम्प्रसारणे परे पूर्वं स्थितस्य वकारस्य सम्प्रसारणं न भवति ग्रहीज्य इति सूत्रेण सम्प्रसारण आदेशः व ई अध योगः इह सम्प्रसारणा च इति सूत्रेण सम्प्रसारणसंज्ञकवर्णात् परम् अच्चस्ति चेत् पूर्वपयोः स्थाने एकः पूर्वरूपादेशः यथा विद्योगः य विद्य इति अङ्गं विध्य योगः ति इति रूपः एव व्याधः यः मृग् म्रुग, मृगायां करो मृगयां करोति छिद्रं करोति इति विद्यति ग्रही ज्या वै व्यथि वष्टिविच्छति वृच्छति पृच्छति भृजदीनां निति च इति सूत्रं वदति ग्रह ज्या वै व्यथ् वश् व्यच् व्रच् भ्रेषां सम्प्रसारणं भवति किति नितिः प्रत्ययपरे अनुवृत्तिसहितसूत्रं गृहीज्य वै व्यथि वष्टि विचति वृच्छति पृच्छति पृच्छतीनां च सम्प्रसारणम् त प्रत्ययपरे किति इत्यस्य उदाहरणं ग्रह धातुः क्रयादौ क्रयादिगणे गृह्णाति सर्वे दिवादिगणे नास्ति यदि एव न पठतु भगिनि गृह त्रयाधिगण अस्ति गृह्णाति तत् तस्य प्रत्ययरूपमस्ति गृहीतः जया जया अपि क्रयादिगणे जिनाति वृद्धः जीर्णः भवति इति अर्थः जीर्णः इति च प्रत्ययः वै वे भा, भादौ अत्र वे इति किमर्थं भगिनि अत्र वे इति एव मूलधातुः अस्ति वेय् इति नकारादिः धातुः तत्र वै इति आदेशः भवति लिट्लकारे वै आदेशः भवति अत्र ग्रहीज्या इत्यस्मिन् सूत्रे वे इति धातोः स्थाने वै इति आदेशः भवति अतः अत्र वै इति दत्तमस्ति मूलधातुः तु वे इत्येव इति प्रत्यारूपं व्यत् दिवादिगणे विध्यति झिनत्ति विद्धः इति रूपम् वश अदादिगणे वष्टि इच्छति इत्यर्थः उषितः इति रूपम् व्यत्स्तुदादिगणे विचति वञ्चयति विचितः व्रश्च वृच्छति कर्तयति वृक्नः ृच्ति पृष्टः समीचीनमस्ति भगिनी धन्यवादः तत्र तत्र किमर्थं तत्र वकारस्य भवति यकारस्य भवेत् खलु अत्र वस्तु <coughs> वै इति धातुः वै इति वा अत्र वै इति नास्ति महोदय अत्र वे इति अस्ति अत्र लिट्लकाले आदेश एव आदेशः भवति तर्हि अत्र वै रूपं गृहीत्वा वयं सम्प्रसारणं न कुर्मः वे इति धातुः स्वीकृत्य कुर्मः वस्तुतः अत्र वे इति धातोः अत्र ग्रहीज्या इति सूत्रेण न भवति अत्र अन्यत् सूत्रमस्ति खलु वचिस्वपि यजादीनां किति तेन सूत्रेण एव तत्र सम्प्रसारणं भवति अत्र वे स्वीकृत्य तत्र वे इत्यस्मिन् तत्र वकारः एकः एव सम्प्रसारणसंज्ञक अतः तस्य स्थाने सम्प्रसारणं भूत्वा उ आगच्छति उतः इति तान्तरूपम् उकारः भगिनि मम प्रश्नः अस्ति सूत्रे ग्रही ज्या वै व्यधि ते धातवः कार्यं भूत्वा सम्प्रासनं भवति अन्तिमपञ्चमधातुः वृषति पृच्छति भृजति तयोः तेषां ते सम्प्रासा सम्प्रासां पूर्वं दत्तमस्ति सूत्रे सूत्रे एव दत्तं समीचीनम् आम् आं भगिनि विच् इति अस्ति व्यच् इति अस्ति चेत् विच् इति रूपं व्रच् इति अस्ति चेत् व्रश् व्रच् इति अस्ति आं सत्यं तथा किमर्थम् किं प्रश्नः कः भगिनि न न मम प्रश्नः अस्ति अहं पूर्वं दत्तमस्ति सम्प्रसारणं कु सूत्रे एव अस्तु अस्तु सूत्रे एव दत्तमस्ति तत्र स्टिप् इति प्रत्ययं योजयित्वा तत्र प्रदर्शितमस्ति सम्प्रसारणकार्यं कृत्वा प्र प्रदर्शितमस्ति अस्ति अस्तु अग्रे हेमाभगिनी पठति वा किमपि महोदय अस्मि अस्मि ब्यूट् मध्ये अस्मि इदानीम् इगणः सम्प्रसारणं वयं जानीमः सन् संज्ञासूत्रमस्ति यणः इक् इति तर्हि विपरीतसूत्रमस्ति इको यण च तस्य विपरीतसूत्रं यण् स्थाने भवति सम्प्रसारणाच्च सम्प्रसारणसञ्ज्ञकवर्णात् परम् अच्च अस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति इति अणवसूत्र संप्रसारणाच अची पूर्वपर एक हा, पूर्व संहिताया पूर्वेश पूर्वित संप्रसारण न संप्रसारणे संण यदि दौ वर्ण स्तरी प्रथम से नवतीये साराशाता दौ धातु दिबादिगणे झृष् झृष् वयो हानौ जीर् जीर्णः भवति इमौ द्वौ धातु ऋकारान्तौ समानार्थकौ च हलन्त्यम् तस्य लोपः इत्याभ्याम् इत्या झृझृ झ योगः ष्यन् झृ योगः यकारः अनुबन्धलोपानन्तरम् नूतनसूत्रम् इदानीम् अत्र ऋत इत्यनेन रुदन्तस्य धातोः ह्रस्व तरी झ अीर्घकार अस्थ स्था इकार ह्रस्वईकार जी तीग यर्ण अस्थ्वारण्रपरन ऋकार सेणादेश सदा रपरतीिग यम य हलाजि अत हलीची रेफात धा उपदिवर्ण दीर्घति अतः जिर् इदानीं जिर् इति भवति जिर्योगः य जीर्य इति अङ्गम् तर्हि जीर्ययोगः ति जीर्यति इति रूपं निष्पन्नं तत्र सोपानानि दत्तं तस्य एव जृषति धातुः ष्यन् योजनेन अनुबन्धलोपानन्तरं जृयोगः य ऋत स्थाने इकारादेशः तर्हि जियोगः य उरण्ड्रपरः अतः जिर्योगः य सूत्रेण यकार हल वर्ण अतः पूर्व रेपात पूर्व सेकार से दीर्घादेशीग यर्णमेलने जी रूपं, जीवती तथा झु महाप्राण झकार ये सामन कार्याण भूत अर्थ अभी सामनमें दी ऋत धा सूत्रमस्ट ऋद्त धाते अंग से ह्रस्वइो कि अस्त्रे नि न उक्त यसर है त्र ति भिन्न प्रत्यय परछे गुणे सती इकारादेश प्रसि नस्म साधा ईत्व अतः अत्र अच्छा सूत्र से प्रसक्ति अस्थ धा अंग षिस्था षि विभक्ति अन्या स्थन योगो यषा सूत्रमस्तस्था तदनतरम अलोन्तिभक्तिरा यद स्था आदेश प्राप्त सह आदेश सह आदेश अंत्य अल वर्ण से अति सूत्र ष अंत्य अलहस्थ विशेषणं hmm. न विधिद विशेषण तदंतृतिसहित सूत्रम विधि तदंत्रपर वद अण्देशा रपर एवती ऋकारेण प्रकारक ऋकार बोध्यं अनृत्तिसहित सूत्रमस्तुस्था अण्रपर हली च रेफान्तानां वकारान्तानां च धातूनाम् स्थितः इक् दीर्घो भवति हलीपरे अनुवृत्तिसहितसूत्रमस्ति हली च रोः धातोः उपधायाः इकः दीर्घः सुदर्शनं धन्यवादः भगिनि इदानीम् अत्र शुकवान् महोदय अग्रे पठति वा वकारान्तानाम् दीर्घत्वम् चत्वारः धातवः दिवादिगणे चत्वारः वकारान्तधातवः सन्ति दिवु शिवु स्त्रिवु ष्टिवु दिवु क्रीडा विजिगीषा विजिगीषा व्यवहार द्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु स्वीकरोति क्रीडति इच्छति जेतुम् इच्छतिद्राति गच्छति तेजस्वी भवति प्रशंसां करोति प्रसन्नो भवति व्यवहारं करोति इति तेषामर्थः अर्थाः शिव तन्तुसन्ताने सीवनं करोति सु रोपयति सोपयति इति भवेत् रोपयति इति दत्तमस्ति ओ तत्र ीवयति इति रूपं महोदय तत्र सीवयति इति रूपं दिवादिगणे अस्ति खलु रोपयति इति अर्थः रोपयति इति सीव्यति तदेव सीव्यति दीव्यति तादृशरूपं गति सोषणयोः गच्छति शुष्कः भवति इति निरसनेट् स्पिट् हली च इत्यनेन यः धातुः वकारान्तः तस्य उपधायां स्थितः दीर्घः भवति हलीपरे श्यन् इति विकरणप्रत्ययः हलादिः यकारादिः च अपित् च अतः सूत्रस्य प्रसक्तिरस्ति यदि शन् अभविष्यत् तर्हि पुगुन्तलकुबिदस्य च इत्यनेन उपधायां लघु गुणः अभविष्यत् गुणकार्य अभावे हली च आगत्य कार्यं करोति दिव्योगः ह्यन् हलीच इत्यनेन वकारान्तधातोः हलीपरे उपदायां स्थितः एकः ईक् एक वर्णः दीर्घः दीव् योगः य दी दिव्य इति अङ्गं दीव्ययोगः ती इति दीव्यति एवमेव सिव्योगः श्यन् हलीच सीव्य योगः सीव्यति स्त्रिव्योगः पुनः हलीच इत्यनेन स्रीव्यति योगः श्यन् हली च इत्यनेन ष्टीव्यति इति भवति सुब् धातुष्टिवु ष्टिवु शुष्कतीनां सत्त्वप्रतिषेधो वक्तव्यः इति वार्तिकं धात्वादेः शः सः इत्यस्य निषेधकवार्तिकमस्ति एतत् नामधातूनां ष्टिवु शुष्क अनयोः धातोः च स्थाने सकारादेशः न भवति अतः शोडीयते इति नाम दातुः तत्र शकारः एव आदौ तिष्ठति षण्डीयते नाम दातुः पुनः स्टीवति इत्येव रूपमस्ति न तु सीवति इति ष्व्कते तत्रापि मूर्धने शकारः एव तिष्ठति अस्तु महोदय धन्यवादः अग्रे सरलावद् पठति पञ्चमकमिन्दु गुणः एकधातुः निमिदां स्नेहने स्निग्ध भवति टु मेल् डुसा आदि संज्ञा धातु अस्ति तस्य सूत्रमस्ति ङ्यकारस्य लोप भवति ङ्यकारस्य उपदेशे जन्नासिक तस्य लोपः आकारस्य आकारोप भवति इत्येभिः अनुबन्धलोपा लोपे मित् इति धातुः अस्ति मिदे गुण मिद् धातोः गुण भवति क्षितिप्रत्ययपरे मिदे षष्ठ्यन्तं गुणप्रथमान्तं द्विपदं सूत्रम् अनुवृत्तिसूत्रमस्ति मिदे अङ्गस्य एकः गुण क्षितिः मित् श्यन् मिदे गुण इत्येन क्षितिपरे गुण मेद यः योग यः मेद्य इति अङ्गं मेद्यति मेद्यति भवाद्वादिगणे श्यन् विक्रणपथे अस्ति क्षित्ति भवति तस्य गुणः न भवति किन्तु मिद्याम् इति मिद् धातु कृते विशेषसूत्रमस्ति मिदे गुण इति सूत्रेण अनेन मिद्धातुः तस्य गुणः भवति उपधायाम् इकारस्य मेद् इति भवति hmm. hmm. hmm. समीचीनं कर्मणि रूपं वदति वा मिद्यते भवति सत्यं विद्यते एव तत्र तु गुणः न भवति अग्रे पठतु भगिनी एक एकः एक एक दातुं धातु आदेश एकः धातु जने प्रादुर्भावे उत्पन्नो भवति संजातो भवति न्याजनो जा क्रियादिगणे जनद्वादिगणे चेतनयोः जा आदेशो भवति क्षितिप्रत्यये पदे आदेश अनेकाल् अतः अनेकाल् शक् सर्वस्य इत्यनेन आदेश सर्वस्थानिनः स्थाने भवति नतु तु अन्त्यवर्णस्य दाक्ष जन च तयोर्तरेतरे द्वन्द्व न्याजनौ तयोः ज्ञाजनो न्याजनोः षष्ठ्यन्तं न्या सर्वं त्यजतु भगिनी अनुवृत्तिः अस्तु अनुवृत्तिसहितसूत्रमस्ति ज्ञा जनो अङ्गस्य अत्र ग्या जन द्व क्रियादिगणे जन अस्ति द्वादिगणे द्वे तस्य स्थाने आदेश भवति जा इति आदेशः गतिशिति प्रत्यपरे यथा अस्ति अनेका षट् सर्वस्य आदेशः अनेका आदेश एकवर्णः न अपि तु अनेकवर्णा अने अथवा षि चेत् सर्वस्थाने स्थाने भवति न तु अन्त्यवर्णस्य एकः विशेषः अस्ति अनेकाश्चित् सर्वस्य अलोन्तस्य विपरीतम् अस्ति अलोन्तस्य इति सूत्रेण केवलं अल् वर्ण यः पदस्य अन्ते अस्ति तस्य स्था तस्य तत् स्थानि भवति अनेकाश्चित् सर्वस्य पूर्णपदम् स्थानी भवति अनेकाश्चित् सर्वस्य स्थाने जन् धातु आत्मनेपदी जनी इति औपदेशकधातुः अस्ति अनुबन्धलोपे जन् भवति जन योगस्य न्या जनो जा इत्यनेन क्षितिपरे जा आदेश जायोगय जाय इति अङ्गं जायते इति भवति कस्य mm. जनी इत्यस्य कर्मणि रूपं किं भव किं भवति भगिनि जन्यते mm. जन्यते इति रूपं तत्र जायते इति अपि रूपं, रूपं, रूपं। भवति वैकल्पिकं uh. जन्यते जायते इति कर्मणि अस्ति द्वे रूपम् अस्तु mm. Mm. संशयः आसीत् तदानीमपि कथं तत्र तु शिति इति स्पष्टतया दत् दत्तमस्ति खलु ज्ञा जनोः अङ्गस्य जा क्षिति इति एव अस्ति कथं जायते इति रूपं भवति अन्य अन्यत् अन्यत् सूत्रेण अन्यत् सूत्रेण तत्र ये विभाषा इति अन्यत् सूत्रमस्ति तेन सूत्रेण विकल्पेन जन्धातोः एकवारं जन्यते इति रूपम् अथवा तत्र जा आदेशः अपि भूत्वा जायते आकारादेशः भवति नकारस्य स्थाने आकारादेशः भवति यतः वयं तत्र अनुनासिक अनुनासिकदातवः तस्मिन् प्रसङ्गे वयं पठितवन्तः खलु तत्र जनसनखनां सञ्जलोः इति सूत्रं तत्र नकारस्य स्थाने आकारादेशः भवति इति तादृशमेव अत्रापि जनि इति दातुः नकारस्य स्थाने आकारादेशः भवति जायते इति रूपं केवलं सूचना जायते बहु समानम् अर्थम् अधिक अतः एव अहम् उक्तवती जायते इति कर्मण्यर्थे बहुवारं वयं प्रयोगं कुर्मः तत्र जायमानः इति शानजान्तरूपमपि जायमानः जायते जन्यते इति तादृशम् अस्तु अस्तु भगिनि धन्यवादः इदानीम् अग्रे रामप्रिया भगिनि आं भगिनि चत्वारः दात्व दातवः चत्वारः सन्ति दो षो दो अवखण्डने विभागे भग्नं करोति शो तनुकरणे तीक्ष्णं करोति कृशं करोति चो छेदने कर्तयति शो अन्त अन्तःकर्मणि पूरयति समापयति अत्र सूत्रमस्ति ओतः इति इत्यनेन धात्वाङ्गस्य ओकारस्य लोपो भवति शणीपरे दो इति प्रथमधातुः योगः शन् इति द्विवादिभ्यः शन् इति षन् प्रकरणप्रत्ययः ओतः शनि इत्यनेन शनीपरे धात्वाङ्गस्य ओकारस्य लोपः ओकारस्य लोपः भूत्वा धकारः योगः य तत्र ध्य इति अङ्गं ध्यति इति रूपं भवति चो योगः श्यन् अत्रापि ओतः इति सूत्रेण शनि परे ओकारस्य लोपः भूत्वा श्यति इति रूपं श्य इति अङ्गं चो योगः श्यन् इति सूत्रेण धात्वाङ्गस्य ओकारस्य लोपः भूत्वा चै इति श्यै इति चै इति क्षयति च्यति क्ष्यति इति अङ् ो तत्र धात्वादेशः सः इत्यनेन मूलधातोः आदौ शकारस्य स्थाने सकारादेशः सो योगः श्यन् ओतः इति सूत्रेण शनिपरे धात्वाङ्गस्य ओकारस्य लोपः भूत्वा सकारः योगः यक य इति अङ्गं त्यति इति रूपम् ओतः शनि इति सूत्रं वदति धात्वाङ्गस्य ओकारस्य लोपः भवति शनि परे तत्र अनुवृत्तिसहितसूत्रम् अस्ति शनि ओतः अङ्गस्य लोपः समीचीनं अग्रे अत्र लक्ष्मी भगिनी पठति वा भगिनी एकः प्रश्नः अस्ति सति अत्र क्रियापदम् अस्ति सतिकारि भवति तत् प्रत्ययः अस्ति तत्र पुनः स्यति इति अत्र रूपं प्रश्नः कः तत्तु तत्तु भिन्नं तत्तु भिन्नम् अस्ति तत्र लिट्रकार तत्र भिन्नं तत्र स्य इति विकरणप्रत्ययः तत्र मध्ये आगच्छति अत्र स्यति इति एव क्रियापदम् अस्तु अस्तु भगिनि लक्ष्मी समाधि अन्तर्गणः समामष्टानां दीर्घः शनि समादीनाम् अष्टानां धातूनां दीर्घत्वं कश्चन अन्तर्गणः अस्ति समाधिगणः नाम यस्मिन् अष्ट अष्टधातवः सन्ति शनिपरे एषां धातूनाम् उपधायां स्थितः अकारः दीर्घो भवति अनुवृत्तिसहितसूत्रं क्षमाम् अष्टानाम् अङ्गानां अचः दीर्घः शनि अचश्च यत्र यत्र ह्रस्वः दीर्घः पृतः च विधीयन्ते तत्र तत्र अचः इति षष्ठ्यन्तपदम् आगत्य स्वस्थितं भवति अनुवृत्तिसहितसूत्रं हस्वदीर्घपृथैः अचः च अश् अनन्तरम् ऊकालो एतत् श्रीसङ्ख्यासूत्रं खलु ऊकालो उकालोज्रस्वदीर्घप्लुतः उकालज्र स्वदीर्घप्लुतः इति सन्ध्यासूत्रम् अनेन उ इत्यस्य नाम ह्रस्वः उ इत्यस्य नाम दीर्घः उ त्रि इत्यस्य नाम प्लुतः ततः अग्रिमं सूत्रम् अचश्च वक्ति यत् यत्र यत्र आदेशः इष्टः तत्र तत्र अचः एव अयम् आदेशो भवति अस्तु शमुम् उपशमे शान्तः भवति शमामिष्ठानां दीर्घः शरि इत्यपि दीर्घत्वम् आकारः दीर्घः भवति श्रामयोगः अशाम्य श्राम्य इति अङ्गं श्राम्ययोगः इति श्राम्यति तमुं काङ्क्ष काङ्क्षायाम् इच्छति तंयोगः श्यन् शमामिष्ठामि क्षमामष्टानां दीर्घः शनि सूत्रेण उपायस्य अकारस्य दीर्घः तां योगः य ताम्यति ताम्यति अङ्गं ताम्ययोगः इति ताम्यति एवमेव दमुं उपशमे शान्तः भवति दं योगः श्यन् श्यन। क्षमाष्टमेव श्यन। भगिनि अन्तिमरूपमेव उपशमे दाम्यति श्रं तपसि श्रं श्राम्यति ्रमों भ्रमणं करोति भ्राम्यति क्षमुं सहने क्षाम्यति क्लमुं ग्लानौ क्लाम्यति क्लाम्यति मदीं हर्षे माद्यति क्लमुं भवादिगणे अपि अस्ति खलु भवादिगणे अपि अस्ति दिवादिगणे अपि अस्ति अस्तु दिवादिगणे एव अत्र इदानीं अस्तु अस्तु परिशिष्टं इदानीं त्यजामः अग्रे तु दादिगणे गच्छामः अत्र उकालो ज्वरस्वदीर्घप्लुतः इति अस्ति तत्र हस्व इति हकारस्य तत्र जकारादेशः भवति कोऽपि वदति वा तत्र सन्धिसूत्रं किम् इति स्मरति वा कोऽपि जयोः हा समीचीनं हा जयोः नेतरस्य समीचीनम् <coughs> अस्तु अग्रे तुदाभिगणः अग्रिमपाठम् अत्र अनन्तकृष्णमहोदय आरम्भं करोति वा ah, thanks, किम् तुदादिगणे कर्तते सार्वधातुकप्रत्ययपरे धातुभ्यः श विकरणप्रत्ययः विहितः अस्ति वस्तुतः इत्यनेन शप् विहितः तदा कर्तरि इति सूत्रम् प्रबाध्य तुदादिभ्यः शः आगत्य कार्यम् करोति किमर्थम् अस्याम् दशायाम् तुदादिभ्यः सः स्वस्य कार्यम् न करोति चेत् इदम् सूत्रम् निरवकाशम् भविष्यति कर्तरिषप् इत्यस्य अन्यत्र लब्धाव अस्ति अतः तुदादिभ्यः सः कर्तरिषप् इत्यस्य अपवादभूतसूत्रम् पूर्वपरनित्या नित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरम् बलीयः इति परिभाषया यत् अपवादः अस्ति या बालवत् अतः अत्र परे। कर्तरी भवति कर्तके परे धातोः शप्रत्ययः परश्च कर्तरि सार्वदातके अयं षप्रत्ययः षित् इति कारणतः तिंशित् इति सूत्रेण सार्वधातुकप्रत्ययः तस्मात् कारणात् षप्रत्ययः परश्चेत् सार्वधातुक आर्धदातुक आर्धदातुकयोः पुगन्धलघुपदस्य इति सूत्राभ्यां गुणकार्यं विहितं परन्तु श श अपित् अतः सार्वदातुकम् अपित् इति सूत्रेण ञित्वत् ङित्वत् अतः ण्यति इत्यनेन इति च ञ्यति च इति कारणतः यत्र यत्र गुणकार्यं विहितं भवति तत्र तत्र निषिद्धं तत्र, तत्र प्रथमं सर्वत्र सामान्यसूत्रम् आगत्य कार्यं करोति कर्तरि शप् परन्तु तं सूत्रं प्रबाद्य तदादिभ्यः शः इति सूत्रम् आगत्य कार्यं करोति तत्र तादृशसुदादिभ्यः शः शः इति प्रत्ययः तिङ्क्षित् सार्वदातुकमितिनेन सार्वदातुकप्रत्ययः तथापि पित् प्रत्ययः नास्ति इत्यस्मात् कारणात् सार्वदातकम् अपित् इत्यनेन सूत्रेण स च प्रत्ययः तत्र यद्यपि सार्वदातुकप्रत्ययः अस्ति परन्तु अपित्वात् गुणनिषेधः भवति इति सूत्रस्य अंशः ततः ततः एव तुद दातो तुद् दातोः तुदति भवति लिक् दातोः लिखति भवति न तु लेखति इति सारांशः अस्तु महोदय धन्यवादः अत्र अग्रे यत्र पुष्पभगिनी पठति वा कि विशिष्टकार्याणि अस्ति वा अस्मि अस्मि भगिनि हा इति विशिष्टकार्याणि यः कोऽपि प्रत्ययः कित् नित्तः भवति तं प्रत्ययः प्रत्ययं निमित्तीकृत्य पूर्वं स्थिते अङ्गे यथासङ्गं त्रीणि विशिष्टकार्याणि प्र, प्रवर्तनीयानि अङ्गान्ते एक एकं विषयं अङ्गान्ते उपायाञ्च गुणः निषिद्धः तुदादौ तु योगः ति तुदति निति च इति इति सूत्रेण अनि द्वे द्वे धातूनाम् उपधायां न लोपः हलन्त धातूनां हस्वह इकारः नास्ति धातूनाम् उपधायां नकारः अस्ति चेत् तस्य लोपो भवति योगः योगः योगहति लोपः तत्र तत्र शकारः विकरणप्रत्ययः तत्र शकारः अकारः एव अवशिष्यते तत्र शकारम्पतिरुम्पति न मकारः अस्ति नलोपः न लोपः तदनन्तरं पुनः अग्रे पठ अग्रे हा अग्रे आगच्छति अनिदितां हल् उपदायां अस्तु इति परन्तु तुरादिगणे विशिष्टका वार्तिकेन एषा पुनः सं नुमागमः आनीयते अस्तु अस्तु भगिनि शे तृम्फादीनां इति वाचिकेन तृम्फ मकारः आयाति तृम्फ योगः श योगहति न लोपः तृम्फ् आ योगहति नो आगमः तृम्फ योग आ योगहति तृम्फति अस्तु सम्प्रसारणीनां धातूनां सम्प्रसारणं यण् स्थाने यिक् आदेशः यन् सन्धौ यथा भवति तस्य विपरीत क्रमः किति प्रत्यये परे व्रश्च योगः योगः ति तत्तु वृष्टति इति आयाति तथैव यन् सन्धि वि, विपरीतः आगति आगच्छति स ्रायि अस्ति चेत् ऋक् ऋकारः आयाति रेफः अस्ति चेत् ऋकारः आयाति रहिज्या वयि व्याधि वश् वष्टिः वचति वृच्छति पृच्छति बृजतीनाम् इति च इति सूत्रेण ध्येयं यत् दिवादिगणे तुदादिगणे च यद्यपि उभयत्र विकरणम् अप् तथापि सर्वत्र तयोः कार्यं समानं नास्ति भेदाः सन्ति यतोहि श्यन् यका यादिः अपि प्रत्ययः श अजादि अपि प्रत्ययः श हलादि अजादि भेदात् का कार्ये भे भेदाः सन्ति परन्तु उपरितन उपरितन उपरितननिय नियमत्रणं नियमत्रयः सार्वक सार्वत्रिकं न सार्वत्रिकं नाम कित् नित् प्रत्यये येषां त्रयाणां कार्यं भवति एव एषु त्रिषु नियमेषु गुणनिषेधः न लोपः सम्प्रसारणम् इत्येषु प्रत्ययस्य हलादि अजादिभेदात् न कोऽपि प्रभावः hmm. uh, प्र, नुम्पति एवमागमान अत्र अस्ति तत्र अन्ये दातवः अपि सन्ति अस्तु धन्यवादः अग्रे रश्मि भगिनि किन्तु अन्यत्र हलादि अजादिभेदेन कार्ये भेदः यद्यपि कार्येत् इति प्रति प्रसङ्गः अस्ति परन्तु सूत्रेषु हलादिपरे अजादिपरे इति कुत्रचित् उक्तं यथा प्रत्ययः हलादिः कित् चेत् हली च इत्यनेन रेभान्दानां वकारान्दानां च धातूनाम् उबधायां स्थितः इक् वर्णः दीर्घो भवति दिवादिगणेष्यन् हलादिः अतः इदं कार्यं भवति यथा जृयोगः य जिर्योगः य जीर्य जीर्यति इति रूपं तुदादौ श अजातिः अतः न भवति अन्यत्र प्रत्यह अजातिः कित् नित् भवति यथा अचिष्णुधातुभ्रुवां योरिवङ् वङ्गौ इति सूत्रेण अचि कित्ङ् इति परे इकारान्त उकारान्त धातु अङ्गस्य इकारस्य उकारस्य स्थाने क्रमशः इयङ उवङ् आदेशः भवति रियोगः आयोगः तियोगः इयोगः आयोगः तिरियति द्विवादौ ह्यन् हलादिः अतः इदं कार्यं न सम्भवति Hmm. अन्यानि कित् निमित्तानि कार्याणि यथासङ्गं वक्ष्यन्ते अधुना तुदादिगणे सार्वधातुकलकाराणां रूपाणि कथं भवन्ति इति वीक्षताम् तुदादिगणः प्रथमधातुगणसमूहे नाम अस्मिन् गणे अङ्गं सर्वत्र अदन्तं श शा प्रत्ययस्य शकारस्य इत्संज्ञा दशक्त दद्धिते इति इत्यनेन तस्य आ इति अवशिष्यते तुदादुगणीयः धातुः यः कोऽपि भवतु नामा अंगस्य अन्ते आ इति विकरणसम्बन्ध उकारः भवति एव यथा लिख योगः आ लिखा लिख अग्रिमपरिचयं त्यजतु भगिनी तदनन्तरं पठतु अस्माकं अस्मा कुञ्चिका अस्ति अङ्गम् अङ्गं ज्ञायते चेत् लटि लोटि लङि विधिलिङि च सर्वाणि रूपाणि ज्ञायन्ते एकवारं तदादिगणे चतुर्णां लकाराणां तिङ्गन्तरूपाणि कथं सन्ति इति पश्येम तदा एवमेव अग्रे कस्यचिदपि धातोः अदन्दाङ्गस्य ज्ञानेन सर्वाणि तिङन्तरूपाणि ज्ञास्यन्ते अत्र दृष्टान्ते परस्मैपदे चल् धातुः अङ्गमस्ति चल् योगः लट्टि सिद्ध प्रत्ययः तीर्थ ध इति भगिनि केवलं रूपाणि एव वदतु एकवारं लट्लु हा लट् लग्त, लट्टि चलति चलतः चलन्ति चलसि चलतः चलध चलामि चलाव चलाव लोटि चलतु अथवा चलता चलतां चलन्तु चल चलतात् चलतं चलता चलानि चलाव चलाम लङ्लकारे अचलत् अचलताम् अचलन् अचलः अचलतम् अचलत अचलम् अचलाव अचलाम विधिलिङ्लकारे चलेत् चलेतां चलेयुः चलेः चलेतं चलेत चलेयं चले वा चलेम hmm. समीचीनं धन्यवादः अग्रे हेमा भगिनी अस्ति वा उत्तमपुरुष आकारः आयाति न तत् सूत्रं अतो दीर्घो ययी इति सूत्रमासीत् खलु अतो दीर्घो यै अस्तु अस्तु अस्तु अग्रे शुकवान् महोदय कृपया तत्र लङ्गीरूप वक्तव्यं वा हा एकवारं वदतु महोदय अमृत् इति छल् छल् इति दातोः वदामः अभवत् अभवत् इदानीं भगिनी उक्तवती सर्वाणि रूपाणि ओ सा उक्तवती अस्तु मृ इति धातुः अस्ति आत्मनेपदी मृङ् धातुः प्राणत्यागे अङ्गम् अस्ति मृ म्रिय इति भवति लटि म्रियते म्रियते म्रियन्ते म्रियते म्रियथे म्रियद्वे म्रिये म्रियावहे म्रियामहे लोटि म्रियतां म्रियेतां म्रियन्तां म्रियस्व म्रियेथां म्रियध्वं म्रियै म्रियावहै म्रियामहै लङि अम्रियत अम्रियेताम् अम्रियन्त अम्रियथाः अम्रियेथाम् अम्रियध्वम् अम्रिये अम्रियावहि अम्रियामहि विधिलिङि म्रियेत म्रियेयातां म्रियेरन् म्रियेथाः म्रिये याथां म्रियध्वं म्रिये म्रिय म्रि म्रिये वहि म्रिये वहि म्रिये महि इति भवति अत्र के अत्र किं केवलं सूचनार्थम् अत्र मृ इति दातुः कर्मण्यर्थे अपि म्रियते इति एव रूपं तत्र उभयत्र समानकार्यं भवति अग्रे वयं तस्मिन् विषये पठ पठामः अस्तु इदानीं कुतः आरभ्य पठनीयम् अग्रे पठतु अत्र धातवः चतुर्दश हा धातवः चतुर्द चतुर्दशविधाः इत्यस्माभिः पूर्वमेव ज्ञातम् अजन्तदातवः अन्त्यक्रमेण आयोजिताः हलन्तदातवः उपदाक्रमेण विभक्ता अह अजन्तदातवः अकारान्ताः आकारान्तः इकारान्तः इकारान्तः उकारान्तः उकारान्तः ऋकारान्तः ऋकारान्तः यजन्ताः च हलन्तदातवः अदुपददा अदुपदाः इदुपदाः उदुपदाः ऋतुपदाः शेषधातवः च इति तर्हि अनेन आयोजनेन अग्रे सामान्यधातवः येषां सुधादौ किमपि अङ्गकार्यं नास्ति तानि सूच्यन्ते तदा विशेषधातूनां कार्याणि सूच्यन्ते सुधादिगणः सुधागणः वन् सेवेण्टि वन् फिफ़्टि सेवेन् धातवः सामान्यधातु हण्ड्रेड् फोर्टीन् धातवः येषां धातूनां कृते अङ्गनिर्माणसमये किमपि कार्यं नास्ति केवलं वर्णमेलनेव सुदादिगणे अजन्तधातूनां सर्वेषां विशिष्टम् अङ्गकार्यं भवति अतः एषु धातुषु न कोऽपि सामान्यः <coughs> हलन्तधातुषु लघु इघुपदधातुः चेत् पुगन् पुगन्तलघूपदस्य च इत्यनेन गुणः तदा सार्वधातुकम् अपित इति च इत्याभ्यां तदा शेषधातूनां किमपि कार्यं तु न भवति एव अदुपदधातवः चत्वारः चल विसलन् विलसने गच्छति गतिमान् भवति चल्योगः श चल्योगः अ चल इति अङ्गं चलयोगः चलति एवमेव त्व संवरणे त्वचति ओलजी ओलजि इत्येव धातुः पीडायां लज्ज् योगः च <coughs> तत्र लजति इति रूपं कड मदे <coughs> कडति इति रूपं भवति तत्र ओकारः केन सूत्रेण इत्संज्ञा भवति महोदय ओलजि ओलजि ओकारः भवति न जाने भगिनि ओ उपदेशजनसिकेनैव केवलम् अन्ते एव कार्यं न करोति न न अन्ते इति नास्ति हलन्त्यमिति एव अन्ते अस्तु अस्तु सम्यक् अत्र कश्चन प्रश्नः उदेति द्वादिगणः इति सामान्यं सुदादिगणः इति विशेषः नाम यत्र अ इति विकरणम् अपि च धातोः व्यवहारः सामान्यः तत्र स च धातुः पाणिनिना द्वादिगणे स्थापितः यदि अ इति विकरणं परन्तु धा धातोः व्यवहारः सामान्यः न यथा लिक् धातुः यस्य उपधा गुणोः न भवति लिखति तदानीमेव पाणिनिना सः धातुः तुदादिगणे स्थाप्यते नो चेत् द्वादिगणः इति अविकरणान्ताङ्गां विकरणान्ताङ्गानां सर्वेषां धातूनां पात्रं प्रश्नः अयम् धातुनां किमपि वैशिष्ट्यं कार्यं तु न भवति खलु तर्हि कुतः सुदादिगणे इमे धातवः स्थापिताः अस्य उत्तरम् अग्रे अस्मिन् पाठे प्राप्स्यते अस्तु धन्यवादः <coughs> <coughs> <coughs> अग्रे सरला भगिनी ी धातवः लघुपद एकादश गुणो न भवति अतः सुदादिगुणे पाणिनिना इमे धातवः स्थापिताः लिख अक्षरविन्यासे लिख युगस्य लिख् अ लिख इति अङ्गं लिखति ओव ओवजि भयचलनयोः आपद्ग्रस्तं करोति नाम भाययति आपद् नाम विज, विज, विज उद्य विध विधाने क्रमेण आयोजयती विध क्षिप प्ररणे प्रेशयती क्षिप क्षिपति शिप क्षिपते अभी प्रत्यय तेज्य क्षिप क्षिपः इत्यनेन अभि प्रति अति इति उपसर्गाः पूर्वं चेत् परस्मैपदी एव अयं धातुः अभिक्षिपति प्रतिक्षिपति अतिक्षिपति षेपे प्रेषयति ड्रिप् टिपति रिफ कथन युद्ध निन्दा हिंसादानुषे हिंसादानेषु युध्यते इत्यादिकं रिप् रिफति किल श्वेतकिरीरनयोः श्वेतः भवति किरति किल् किलति तिल् स्नेहने स्नेह भवति ग्रीजि ओय्लि तैलम् आदधाति आचरति तिल् तिल तिलति चिल् चिल वसने वस्त्रं शरीरे स्थापयति चिल् चलति इळ स्वप्नक्षेपणयोः निद्रां करोति प्रेषयति इल् इलति भग्नं करोति आच्छेदयति भागे भागे विभागं करोति ऋल गहने कठिनतया बोधति निल निल निलति भाव हिल भावकर्णे हिल हिलति मिल संगमे मिल मिलति शिल उञ्चे शिल शिलति े सिल सिलति दृश अतिसर्जने दिश, दिश दिशति दिशते, ऋष हिंसायां ऋष रिषति लिश गतौ लिश निर्विश इत्यनेन नि ने उपसर्गपूर्वक विश धातु आत्मनेपदी निविशते विशति हि एण्टर् निविश्यते हि एण्टर् इन् अत्र उक्तं यत् नि उपसर्ग भवेत् नो चेत् परस्मैपदी एव मधुनिविशन्ति भ्रमराः इति अत्र इति सप्तमी विभक्त्यात्मकं न तु उपसर्गः अस्तु समीचीनमस्ति भगिनि धन्यवादः अत्र रामप्रिया भगिनी अग्रे अत्र एव विज् इति अस्ति किल तत्र उत् उपसर्गपूर्वकः विज् दातुः तस्य लङ्लकाररूपाणि एकवारं वदति वा उपरि लिक् इति अस्ति खलु लिक् इत्यस्य अनन्तरं ओ विजि उद्विजते इति भवति तत्र रूपं वा आम् उद्विज्यते उद्विजेते उद्विजन्ते उद्विजत उद्विजेते लङ् लङ् क्षम्यतां लङ् अवद्विजत अवद्विजेताम् अवुद्विजन्त अवद्विजेताः योजितवती क्षम्यताम् आगच्छति आकारः एव किल विकरणप्रत्ययः अत्र इदानीं न आटश्च नास्ति भगिनि अत्र अत्र सरलाभगिनी वदति वा एकवारं साहाय्यं करोति वा आ, अस्तु भवति एकवारं वदतु भगिनि कथं विसर्ग अङ्गमध्ये आगच्छति विसर्ग अपि धातुमध्ये आगच्छति भवति उदविजत उपसर्गः नास्ति चेत् तत्र अविजत इति रूपं भवति इदानीम् उपसर्गः उपसर्गं योजयित्वा तत्र उदविजत उत, उद तकार भवति उदविजत उदविजत उद विजे विजेताम् उद विजन्त उद विजेथाः उद विजेताम् उद विजेध्वम् उद द्विजे उदध्वम् उद विजे उद विजावहे विजावहि उद विजामहि हा समीचीनम् यत्र उपसर्गः अस्ति तत्र किञ्चित् भ्रमः भवति कुत्र आगमः अडागमः कुत्र स्थापनीयमिति अतः वा। एव एकवारं तत्र केन सूत्रेण तादृशं भवति उपसर्गः कथम् अत्र अडागमः लाङ्ग् रिङ्ग् श्वडुदातः इति सूत्रं किं वदति कुत्र अडागमः भवति इति वदति सूत्रं तत्र धातोः आदौ अडागमः भवति अत्र धातुः कः विज् इति एव धातुः तर्हि अ अडागमः अपि धातोः आदौ टित् इति कृत्वा तत्र आदौ आग आगच्छति अतः अविज् अविज् इति अङ्गं तदनन्तरम् उपसर्गः उपसर्गं योजयामः ओ सूत्रस्य आधारेण इत्युक्ते यत्र यत्र उपसर्ग यत्र यत्र उपसर्गः नित्यमस्ति तत्र सर्वत्र एतादृशमेव प्रक्रिया भवति सत्यम् एकं दातु अपि अस्माभिः दृष्टं किल आङ् नित्य आङ् पूर्वम् इति हा तत्र कुत्र आचामय आचामयति इति आचमति भवति सर्वत्र दता अस्तु अस्तु समयः अभवत् इदानीं समापयामः वा अस्तु धन्यवादः नमस्कारः धन्यवादः नमस्कारः नमस्कारः जुबा लाभी साथ